उत्पृष्त सह सर्वाइना सीत्र नमो धाता ईशान वो वेदराज्यमशंधे ऋणे केेतु सह ये अंतरीक्षे दिव्य मानवा कृशंधेस्ते चलुर्ना महान उपासना अयो मुखाः सूचैवोकासो विकङ्कनैवोकाः क्रव्यातो मातम्भदासजम् पवित्रान्वज्रे न त्रिशन्धिना अन्तर्धे हि वेदादित्य गुणबम्बुः त्रिषन्धेसेना सुहीतास्तु मे वसे उत्तिष्ठत्वम् जय जनार्दो देशेन सह अयम् वयम्बाहूत ऋषम्भे राहूति प्रिया श्रीमती सञ्जनुषव्ये चतुष्पदी कृत्ये मित्रेभ्यो विषम्भे सहसेन या दो वाख्ये सम्पदौ क्रुधीत क्रोशतो त्रिशम्भे सैते अरुणाः सन्तु केता यां स्यन्तरिक्षे दिवि स्वापदो मक्षिकाः संव्रभन्ता मातो दाः पुनर्वेदन्ताम् या इन्द्रेण सन्धाम् समधक्ताम् ब्रह्मणा च बृहस्पते तया लिङ्गसन्धयः सर्वान् देवानि रघोहितो जमाः बृहस्पतिराङ्गिर सर्शय ब्रह्म संसिताः असुरक्षलम् मठम् त्रिषम्भिम् निव्याश्रयम् देदासो गुप्ता नित्य उभाभिङ्गश्चिष्टिम् देवाः भजन्तौ सेत सर्वान् लोकान् समजयम् देवाभूत्यादया बृहस्पतिराङ्गम् यञ्च रक्षलम् मठम् बृहस्पतिराङ्गिरतो वज्रञ्जमलिम् चा सुलक्षजनम् वधन् ते राह नमो सेनाम् दिलिम् पामि बृहस्पते मित्राम् संयोजयसा सर्वे देवात्यायम् दे दिले पश्यन्ति वषकृताम् इमाञ्जोषद्धमाभूतिमितो जय धमाः सर्वे देवात्यायम् तादृशम् दे भेनाभूतिः प्रिया सन्धामहतीम् रक्षधयाग्रे असोराजिता वायुरवित्राणा स्वग्राण्याम् च इन्द्रेषाम् बाहोऽन्प्रतिभक्त्वमाशयम् परिधामिषम् आदित्यले येषामस्तम् विनाशयतु चन्द्रमाहायुतामगतस्य पन्था यदि प्रेजर्देव पुरा परमोपानम् परिपानम् कण्पानाय धूपो धिरेधनवम् तदा न सङ्क्रन्धि कव्यादारुवर्तयम् मृत्कुलाः च पुरोधीराम् त्रिशरम् भे प्रेहिसेन याचयामित्रान् प्रपद्यस्व त्रिशरम् श्रीपदे संवदत्वमित्राः नाम स्मिताः मुह्यन् पद्यामोऽ सेनाः मित्राः मूढामित्राण्यर्बुदे लह्ये राम् वरम् वरम् अनया दहि सेनाया यश्च कमली यश्च कमलजो यै कादवाय रत्मनाभिरशना ये वर्मिणो ये हे महात्राय च वर्मिणः सर्वां स्ताम् अद्वदय हलान् स्वानोदन्तभूम्या ये अधिनोय अ रसाय च साधिनाः सर्वाः सन्तुतान् हलान् मृद्धा शेलाः सहस्रगुणपाशेता मा भित्थी सेनाः समहरे वधाराः निग अजागृन्ता मन्माविरम् रोगम् रो सुवर्णैरदन्तो दुश्चितम् ऋतम् शयाहरम् यदि माम माम् प्रती मा भूति मित्रो नो निगत्सरि याम् देवानुतिष्ठन् दिनस्या नास्ति विराधरम् येन्द्रोन्द्रन्धिरा ओ इति एकादशम् काण्डम् समाप्तम् अथ द्वादशम् काण्डम् ओ सत्यम् मृगशतमुग्रम् दिक्षा ब्रह्मजय पृथिवेन्धः सर्वम् लोकम् पृथिवेन शृणोतु असम्वादम् मध्यतो मा नानाम् यस्यातः प्रवदः समम् बभो नानावीर्य ोषधीर्यभर्ति पृथिवीनः प्रदताम् राज्यताम् नः यस्याहम् समुद्र उदतिन्धुरापोजस्यामन्नम् दृष्टयः सम्बभोवः यस्याः विडम्ब्यम् वदति प्राणदेजत्सा मो भो विः पूर्वपेदेः दधातु यस्याश्चतसः प्रदिश पृथिव्या यस्यामन्नम् प्रक्तयः सम्बोः या विवर्ति बहुधा प्राणदेजत्सा न भो निर्गोष्म्यम् मे दधातु यस्याम् पूर्वेः पूर्वजलाभिहम् देवासूरभ्यवर्तयम् गवामश्वाहायदश्च विष्टाभगम् वच्च पृथिवी वो दधातो विश्वम् बराव सुधारेः प्रतिष्ठाभिरण्यवक्ष जगतो निवेशरी वै स्वागरम् बिभ्रति भूमिरक्तिमिन्द्रवे दधातु याम् रक्षम् च स्वप्ना विश्वेः देवा भूमिम् सा नो मधः प्रियम् दोरामधोक्षपवर्जयसाधी मायाभिरन्म चिना यस्या हृदयम् परमे व्यो मामन् सत्यैरावृतावृतम् पृथिव्याः सा न भो यष्टिम्मतम् राष्ट्रे दधातोत्तरवे यस्या मामः परितराश्रमाणीरहोरात्रे प्रमादम् क्षरन्ति सा न भोरिर्भोरिधा रामयोमतोक्षतवर्जसा राम श्रीरामीमाताम् विश्वरे यस्याम् विचक्रमे इन्द्रायाञ्चक्र आत्मने वित्रांश देव भोरिर्विसृजनाम् माता पुत्राय वेपयाः गिरजस्थे पर्वतान्ते पृथिवीश्यो नमस्तु बभ्रम् कृष्णाम् रोहेरेम् ध्रुवाम् भूमिम् पृथिवीरिन्दुप्ता अजीतोक्षतोऽध्यष्टाम् पृथिवेमहम् यत्ते मध्यम् पृथिवीयच्च नभ्यम् यास्त्र मूर्जस्तम्भः सम्भोः तासो रोधे यभिरप्तवर्षमादाभो यः पुत्रो अहम् पृथिल्याः पर्यन्यः पिता वोरस्प्यपतो यस्याम् वेलिम् परिगृह्णन्ति भोम्यायस्याम् यज्ञम् वदे विश्वणा यस्यामीयन्ते सर्व पृथिव्यामो द्वा शुक्राहत्याः पुरस्ता सर्वभोविर्वर्धय वर्धमाना योनोद्वयपृथिवीगत् मनसा योजयन तन्नो भूमेन्धय पूर्वकृत्वरि पजस्तम् बेभर्जिमदस्तञ्चदस्परः कवे पृथिवीपञ्चरमानवारेभ्यो ज्वलिरमृतम् मर्त्येभ्यौ ज्ञम् सोर्य रश्मिभिरा करोति तालः प्रजाः सन्दोगताम् समग्रावाचो मधुप्रतिविधिवम् विश्वस्तम् मातरमोषधीरान् ध्रुमाम् पृथिवीम् शिवाम् शिवनामनोचरेण विश्वाः महत्सदस्तम् महदेवा घोषित महान् महा व्यजर्वे महां मे महांस्ते प्रमादम् ैव सन्दसिनो अग्निर्भूं यामोदेषग्नि प्रत्यग्निरश्व अग्निरन्तः पुरुषोष्वस्य अग्निवात प्रत्यज्ञान्तम् अग्निम् वर्तासयन्धे हव्यवाहम् धृतप्रियम् अग्निवासा प्रचत यज्ञात्से तम् संशीतम् आकृत भोगम्याम् देवेभ्यो ददयज्ञम् सब्जवरम् कृतम् भूम्याम् मनुष्यादेव स्मराम्येन ष्टिम् मा पृथिवे यस्तेः गन्धः प्रेथिविषम् रघो वयम् विप्रत्योषोऽयमापा जङ्गम् धर्वाप् सरश्च भेजिरे तेन वासुरशङ्गमानो धिक्षत कश्चन यस्ते गन्धः पुष्कर्म विवेशयम् सम् जर्यायाः विवाहे मम्याः पृथिवी गन्धमग्रेतेन वासुराभिङ्क्रेणुमानोऽध्यक्षत कश्चन यस्ते गन्धः पुरोषेण श्रेष् जो यो अश्वुमेषु मृगेषुत हस्तिको कन्याजाम्बक्षो यद्भो वेतेनास्मान् अपि संदेशमाणोऽक्षत कश्चन शिलाभो विरश्वाः पां स्वस्सा भो यः संहृता हृदा तस्ये हि अन्यवक्षस पृथिव्याः कर्मः यस्याम् वृक्षा वा स्पत्याद्भुवास्तिष्ठन्ति विश्वः पृथिवेन् विश्वदायम् हृता वृक्षादावसे उदीरा ना उदासे रास्तिष्ठन्तः प्रक्रामन्तः पद्भ्याम् दक्षिणसम्बे पृथिवी माम्भो ब्रह्मणावधानाम् ऊर्जम् पुष्टम् बिम्भ्रणे मङ्गभागम् घृतम् ताभिः न होमे शुद्धामस्तम्बे क्षणम् तजो नस्य अमित्रेण पृथिभिमोक्तो नामि यास्ते प्राजे प्रदिशो या उदे भोदयश्च पश्चात् शोणास्तावश्यम् च रते भवन्तम् पनेश्रियाणः माणः पश्चान्म पुरस्तान्मुदिष्टावधराधता स्वस्ति भो मे नो मा वीरम् बलिवं जिरो वैया वयावधम् यावत् ते विवश्या विभोमे सौर्येण मेदिना रामम् मे चक्षर्मा वेष्टोत्तरणामुत्तराम् समा गच्छया न पर्यावत्ते दक्षेणम् सव्यमभिभो मे पाः सन् वृत्तास्ता प्रदेहेम् यत्कृष्टिभिहेरधिस्तत्र न भूमे क्षिप्रम् तदपि रोहतो माते माते स्पष्टे भूमे वर्षाद्धेः मन्तशिशीरो वसन्तः धृतमस्तेहीताः यदीराम् विचमाभि यस्यामासम् अग्निलोदे अप्लाः ोन्नदेवम् मृणानाम् ऋत्रम् षट् कालवशपालवृष्टे यस्याहम् ददोविर्धाने योपो यस्याहम् नियीयरे ब्रह्माणो यस्यावच्यम् तैभ्यः साम्ना निर्विराः युज्यम् ते यस्याः वृत्तिजः सम्राय मात यस्याम् पूर्वे भूदशदर्षजयावदादेव सप्तसप्तेन वेदो निज्ञे तो विराजीशदम् कामया महे भरोतपोदयः यस्याम् गायम् निवृत्यम् लिभूम्याम् मध्यायैन युध्यन्ते यस्यान्दो यस्याम् मदरजगन्धवे सा नो भोमे प्रणोदराम् सपत्नाः सपत्नम् महाभजै यस्यामन्नम् यस्याः विनाप्तम् चष्टयाः भौम्यैः पद्यम्य पद्मैनमोऽस्तु वर्णवेद यस्यात्मनो देवते दाक्षेत्रे यस्यापि कुर्वते प्रजापति पृथिवीरम् विश्वगर्भाषाः माशाम् हण्याहन्नक्रमो निहिम् लभ्यते वुरा गृहा वसो मणि दातु मे वसोः निरो वसुदाः समाला देवीर धातुमनस्याम् लभ्यते वुधा विवाहजसम् मानाः कर्मम् पृथिवीरसौकसन् सहस्रम् धारात्रिवीणस्य मे दुहान्ध्रुमेव धेनुरेव स्फुरन्ति यस्ते सर्पो नश्चैकस्तिष्ठदम्बत्प्रति प्रापृषिणम् नः सर्वम्पद्यक्षिवम् ये ते पन्था नो बहवो जनाय नारतस्य वर्मान यैः सज्जनम् उभये भद्रभावास्तम् बन्तास्करम् यच्छिवम् ते नो मृढा बल्लम् बिभ्राते मृगामरे हि दासिंहाव्याघ्रापोरुढाश्चरन्ति पुरम् मृगम् पृथिविदुक्षणामितरक्षेयाम् रक्षोस्मदम् दर्वाप्सरसो यायाः विशाचारम् सर्वा रक्षाम् सितानस्मद्धो या वय याम् विवादः पक्षिणः सम्पदम् विहंसा स्ववर्णाश्च गुणामयांसे यस्याम् वातो मातरिश्वर ते रजाहंसि गृह्णम् पादस्य वंशान् पातस्य परमाणो भवामनो मात्यर्चि यस्याम् कृष्णवारुणम् च भम्हीते अहोरात्रेभूम् जामहि वर्षभूमिप्रथिवेतानो दधातु भद्रया वृजेधामरिधामहि द्यंश्च म इदम् प्रेथिणीरान्तरिक्षम् च मे व्यजाः अज्ञ स्वोर्यावो मेधाम् विश्वे देवाश्च अहमस्मि विश्वम् विशासरे अदो यद्दे पुरस्तात् देवैरुक्ताय सर्वा महित् तन् आत्मनः सुभोतमविषत्तरादेवजवरूप यथा प्रतिदक्षकस्रः येन ग्रामारिणीयम्याः समाधिभूम्याः येन ग्रामा समेतगस्ते रुचारो मदे अश्वभुवेतान्य मन्दाग्युतानश्च लोपा वनस्पतिनान्योहधीरा यद्वगाः विमशो मत्तगरायदीक्षेतद्वरन्तिो दिवानवान्धम् यदोधरतः सन्धिवातो रः सो नेलादे वयस्पति भूयैरेवन्मयेषाः विश्वन्तरम् प्रविष्टा भौरिश्याम् पात्रम् निहितम् गुहाविर्भोगे अवन्मादमभ्याः त्वमस्यावबाले जना रामदेयः कामनुभावप्रधाना यत्र गोनन्दोरजादिप्रजापलिः प्रथमजायतस्य अवस्थास्ते अलमेव लक्ष्मास्मभ्यम् नन्दवधूताः दीर्घम् राजः प्रतिबुध्यमाना वयम् तुभ्यम् परिहृतस्याम भौमे मातम् निधे किमा भद्रया सुप्रतिष्ठितम् संविधानादिवाके श्रियाम् मातै भोत्या नो भरते अत्र लोक इदम् श्रीतम् भागहेयम् तदेहि दोगो हृलक्ष्मपुरोषे हृक्ष्मस्तेनत्वम् अरणं सहस्रंसाङ्गक्ष्मङ्गम् ते नेतो वृत्यम् च निरजामसि नित्यम् निरदयतिम् निरराहति मजामसि यो नोग्रेक्ष्णमध्यज्ञे अक्रव्याद्यमुद्विष्मस्तमो ते प्रसोभामसि यद्यज्ञक्रव्याज्ञा व्याज्ञ इमङ्गोष्ठम् प्रविवेशाम्यो ताः तम् मा राज्यम् कृत्वा प्रहीणामि रोम् स गच्छ त्वप्तप्यग्ने यत्त्वाचक्रम् अन्यथा पुरोषे कृते स्वतमग्नेरत्तया पुनरस्त्वग्नेः प्रयावते पुनस्त्वादित्यारुद्रावसानः पुनः ब्रह्मावसो निजगणे पुनः स्वाब्रह्म कस्त्वराधा दीर्घायत्वाय शरदारदाय व्यात्र विवेश्यन् जातवेसन् अम्भारामितृज्ञाय दूरम् समीपे क्रव्याय पद्यम् बहीरो विदोरम् यमरा यच्छो जातवे देवेभ्यो प्रयानन् क्रव्यादमग्निदोह राजनाहङ्गम् हन्तम् वज्रेण मृत्यम् इदं शास्विशभवृत्तेन वृद्धान्त भागो अस्तु क्रव्यादमग्नम् शमानमुख्याम् प्रहीणामिदारः पादे प्रजाले पुनरागात्रे पितो जागरे अविन्धरे शङ्करसुखम् स्वस्तरे शुद्ध भवत्यै निो अग्निः सुगुणाः पुरायि देवो अग्निः सङ्करसुखो दिवः स्पृष्ठाल्यारोह मुक्ष्यमा नोभिरेण सोमो गस्ताम् अशस्त्याः अस्मिन् अयम् सङ्करसुखे अग्नौ हि प्राणि मृद्महे अभो मैज्ञायशङ्करश्चे ऋवेरेण जो रोगोश्वरजाविषौ क्रव्यादन्यन्नो दामसिजो अव्यजोपरः अन्येभ्यस्ता परोषेभ्यो गोभ्यो अश्वेभ्यस्त्वा निष्कव्याकम् तामसिजो वितरः यस्मिन् देवाः वृजत यस्मिन् मनुष्याः भूता तस्मिन् गतस्तावष्ट्वा समिद्धाज्ञाभुतमाभ्यपक्रवेः विद्याम् दृजे शीर्षे लड्भ्रह्ने मृद्धमग्नौ सङ्कर सुखे जयत् अथ वा्याम् रामायाम् शीर्णत्यमोपमर्हरे श्रीशैलम् साधयित्वा शीर्णत्यमोपमर्हरे अव्यावधिज्ञाम् मृष्ट्वा शुद्धाभावमन्धाम् यस्तरे चालाः चक्षुष्मदेशम्मदे भवन्त विवे जीवा विवृतैरावर्तोद्भद्रादेवर्णो हद्या प्रापञ्च अगामनतलेन विमञ्जीवेद्यपरिधिम् रथा विमैषान्नुगालपरो अर्थ वेतम् षडङ्गीवम् दशरथ्वरोजे स्थिरोवृत्तिम् दधताम् पर्वतेन आरोहोम् मृगानानपूर्वय दिष्टान् सप्त सुयदेवासजोढाः सर्वया यथाहारम्यनुपूर्वम् भवन्ति य सप्तवरयम् देशाकरम् यथा न पूर्वमरोषर्पैषाम् अस्मन् मदीरीयरे संव्रभद्वम् एरद्धम् मदरदासखायः अत्रा श्रीरजेरम् दुरेवानमेवानुत्तरे माभिराजाः उत्तिष्ठता प्रदरदासखायवास्वम् मते रीर्ष्यम् ल्यम् अत्रा श्रीरजेरम् न शीवा शिवान् सोमनानुत्तरे माभिरायाः एश्व देवेयसारभद्रम् श्रद्धा भवन्तरः पाप हरिक्रामम् द्वौ दितापदानि शलम् हिमाः सर्वमदेव उदेशेन परि दर्वाजमध्ये हरिक्रामम् द्वरान् परे सप्त च त्वः परेण नृत्यम् प्रत्योहम्बलोपालेन मृत्यापदैरापयन्तरे तत्राघी यायुप्रदरम् दधानाः आशीहीणा वृत्यम् ददास्य जीवासोः विदध मा किमानारीनविधैव सुपत्रे राजनेतदर्पिष संस्पृशन्ता अनश्रवोः अनरे वा स्वरत्नारोहन्तु जनयो निमङ्गे हविषातौ ब्रह्मणाव्याहन्तयामि स्वधा मित्रभ्यो अजराम् कृणोदी दीर्घ्येनायोषासमिमाम् श्रेजामि यो नो अग्निष्टे तरो स्वाहा निवेशानुवन्त्येषु मय्यहन्तम् परिगृह्णामि देवम् मासो अस्मान् वीक्षते मा भयान्ताम् अवामत्यवत्या कल्यादाख्येतदक्षिणा प्रियम् पृतभ्य आत्मने ब्रह्मभ्यः श्रुणुता प्रिया देभागनमाराय दक्षेणाद्यवत्या अज्ञत्वत्रस्य ज्येष्ठस्य यः कल्यारणीराहिरा यत् ऋणदे यत् नृदयच्च वस्नेन विन्दते सर्वम् मर्त्यस्य लम्नास्ते कव्याश्चेदनीराहितः अयज्ञो हटवत्या भवतिलेलेन हविरीरत्ते दृश्यामोर्धनात्यम् ग्रव्यायर्तरे तव दत्याम् मत्यो कव्यात्या न किरम् दृकार त्याः संसृज्यन्ते श्रियाम् प्रियरेव ब्रह्मैव विद्वाने यष्ट्यानम् याद यद्रिप्रम् शमनम् च वयच्च दुष्कृतम् आपोमा तस्माच्छम्भम् पत्न्यः सङ्करसुपाच्च यत् ता धराजैः श्रेरावृत्तम् जी वदाना चेत् परिषद्देव पर्वतश्च वृषभस्याधिपृष्ठे नश्चरन्ति हैकः पुराणे अग्नेरक्रव्यानिष्कव्यादम् पुरादेव यजरलम्ब इमम् कव्यादाविधायम् कव्यादयन्मदान व्याघ्रो कृत्वा नाम् तम् भरामि शिवापरम् अन्तर्निर्देवानाम् परधर्मनुष्ठाणामज्ञादेवत्य उभयानन्तर जीवानामायुप्रदे अयल्लकमेव गच्छाः सुगारन्नराम्भेस्मै सर्वाः लग्ने सह मानसपत्नादयैषामोर्जम् अयमस्मासो देहि इममिन्द्रम् वह्निम् बप्री वन्वार भद्धम् सवो निर्वक्षत्वहितादव्यार तेनापहल च मायन्तम् तेन रुद्रस्य परिपादास्ता अहम् प्रवन्वार भद्धम् सवो निर्वक्षत्वहितार भद्याद वितरुणादमेताम् शब्दुर्वीरेण मात्यन्तरेण क्षे यस्तिष्ठन्स्मे भ्रजगेवनः पुरुष गन्धिरेभि तेन ध्यामिष्ठन्त कव्याद्यानकिरम् देदा तथा समासदे ुराः क्रव्याद्यालम् दिगादष्टा वायम् पशोनाम् शेषम् क्रव्याजते चन्द्रम् ताः पिष्टा वायम्परम् तस्मात् विश्वादिल्किञ्चम् नन्दरम् कमिन्द्रदिध्वम् दत्ताग्निराजधो प्रत्यञ्च वर्कम् प्रत्यम् बन्धान्निश्चाविवेश परामे रामधोमम् विवेशी अध्ययरायोमाम् श्रेयामिसौभीतिष्ठ धर्मे हि तत्र परिष्वधर्म प्रयाते यावन, यावन् तावग्रे प्रथमम् सा मेयास्तत्वा राज्ये समानम् तावद्वाम् चक्षुष्टाभक्ते यस्त दा अग्निशरीरम् दजते लैहो पक्मासम्भ्रासः सहस्विवदे समोदेवयादेश समेतम् यमराज्ये सु कोतो पवित्रैरुभद्रदेयाम् यन्धयदीवाम् सम्बभू आपस्पुत्रासौ अभिसंवेशिवम् देवम् न समेत्य तासाम् बलद्रवृदम् यमाहुर्यमहो धनम् वद देवाम् धरित्री जम् माम् पितापजयम् निर्माचारित्राणि निर्मूर्तिशमदाच्चमाचः सवोदनः शरधार स्वर्गमुभे महित्वा उभयदे उभयांश्च लोकान्यभेदा स्वर्गाः तेषां यो यस्मान्मधूमान्योतस्मिन् पुत्रैर्जनभितम् सजेथा प्राचीयम् प्राचीयम् प्रतिशमारभेदामेतम् रातवम् सद्दधानास्तन्ते यद्वारम् पक्कम् परे विष्टमग्नौ तस्य दक्षिणाम् दिशात्रेद तस्मिन् परे यमः पितरः संविधानः पक्वायशम्य बभुवम् यच्छात् प्रतीः दिशामियमज्वलम् यस्याम् सोमो अधिपाव्रेणिता तस्याम् सुलतस्तरे धामधाः भगवान् उत्तरम् राष्ट्रम् प्रगजिसान् अग्रम् प्रान्तम् छन्दः पुरुषो गुरु विश्वेन विश्वाङ्गैः सह सम्भावेन द्रुवयम् विरान्नमोस्त्वस्य शिवा पुत्रेभ्यः उतमश्चेमस्तु सारो शिवारो यमोच तो देवते यदन्नस्तपुत यद्यत्कृष्णस्य कुरैः सरम् विषक्म् बिल आसना स्याद्रहस्ता मन्तौ लोकरम् मुसलम् सुम्भताः अयङ्गः कोतः पवित्रैरपरहन्तु रक्षाः आरोह चर्म महिषम् वरक्षालिपात्रपघ्याः वनस्परिः सहैर्नागम् रक्षप्नः शौश्रयादे प्रवजादि सप्तमे वाहन् पशवः पर्य गृह्णन् येषाम् ज्योतिष्मा पुनरश त्रयस्त्रिंशद्देवतास्ताम् सहजम् ते सरस्वर्गमभिदय लोकान् स्वर्गम् लोकमभिरालया सह पुत्रै स्याह वा येत्तत्र मानस्तारेत्यमुद्योभाजिम् श्रेयम् मातम् विश्वं यदा श्रितपृष्ठाक्षेतम् पर्षमुपर्यक्षयशोऽपम् शशम् पदानपरतेन लोकासंवेदा ब्राह्मणेनो देवासपृ्यान्तरिक्षम् अंशोऽन् निर्भे त्वाम् आरभेधामाप्यायन्ताम् गुणराजन्तसोताम् पृथक् रूपाणे बहुधाम् समृद्ध्या न्तरम् लोही तान् लोगस्पग्रावाः शुम्भारिमलहैवस्ताः पृथिवीम् ताः पृथिव्या माशयामि तमो सामाने यद्यद्व्यक्तम् लेखितमप्राणेन ब्रह्मणा जनित्रैव प्रति हर्यादिहम् सन्ताहारथान् पृथिवीम् प्रेथिव्या उकाकुम्भीरेष्ठाधैराद्य नादेशक्ता अग्निः पदम् रक्षतुत्वा पुनस्तादिन्द्रो रक्षतु दक्षिणतो मनुत्वार वरुणस्वारम्भारुणे पदेत्यरः उत्तरात्वा सोमस्तम्भदादैः पोताः पवित्रैः पवन्ते अभ्राज्यम् जयन्ते विभिम् च लोगान् तारीला देव्याः प्रतिष्ठा पात्रासिक्ताः परिलिन्धा आयन्द प्रेम् स चन्द भूम्याः सजन्दर्जन दर्गा सदेस्ताम्भे स्वर्गभयव उदय प्रभृत संवेदासौ शुक्रा सुामृताः सा ताव भ्याम् जनिष्ठाः पशिक्षन्ते परतासुनाथाः सङ्ख्यातास्तोका पृथिवेन्द्रन्द्रे प्राणापाले संविधाः असङ्ख्याता ओप्यमाना स्वर्णाः सर्वम्याः वशुरशित्वा उद्यानन्यवयोञ्जितम् ताः फेनमश्चन्द्रबहुलांश्च बिन्दून् योषेव दृष्टापतिवृत्ति यादेहैस्तन् दुलैर्भावता समा उत्थापयशीलुद्धेनाधिरात्मान मभिरम् स्प्रेषन्ता अमादिमात्रम्मितास्तम् न प्रविशोयैवाः प्रयच्छ परिशङ्करयाः रोषमहिम् सन्तपोषधीर्दान्तपर्णन् यासाम् स्वज्यम् नभो वामन्धो वा भवन्तो नवम् बर्हिरणायच्छतप्रिया तस्मिन् देवास्थ देवेन्वेषम् तिमन्दाश्च बृहस्पतेऽस्तेर्नमार्गिष्टो मे सम्मेतो देवताः प्रे तृष्टेव लोकम् सुदृतम् दधित्यैरा परिपात्रे तदि षष्ट्याम् सहत्सो नीपेणवारी उपैरम् जीवान् वितरश्च पुत्रा नेताम् सगङ्गामयान्तमग्नेः धर्ताधेयस्वधरुणेव्याश्चन्ता देवताश्चायन्तु परन्ताम् प्रतीजीवम् तौ जीवपुत्रा वृद्धादरातःपरज्यधारात् सर्वान् समागाः विजित्य लोकानम् यावन्तः कामाश्रमानेतपरस्तात् मिगायेथामायवनम् च दर्वेदैकस्मिन् पात्रे अभिवर्धनैरम् उपाश्रमेह प्रलय पुरस्ताद् न विधाहारयेत ेव उपास्तरकारो लोकमेतपुरुप्रतरामस्वर्गः तस्मिन् सयादेव विदः सोपन्नो देवायम् देवताभ्यः प्रेच्छायज्यञ्जाय भजतपरः परः परिर्वाजायत् पत्तिरः सङ्गन्द्रेधाम् सहवान् ददस्तु सम्पादयम् दौदः लोकदेगम् याम् दायम् अस्मत्पुत्राः परिदेशम् भोः सर्वांस्तात्रे रुम् नाभिम् जानाराशि सर्वः समायान्याधारामधोरामृतस्य नाथायः सर्वास्तावरुम्भे स्वर्ग षष्ट्यान् दत्त्वभिश्वे अस्माभि दत्तर्हितः स्वर्गस्ति वृत्ताण्डेऽस्ते स्वर्गार अग्नेरच तौ रेव्यात् हमात्मास्ता त्यादे आदित्येभ्य मैगीरम् गमेण विश्रम् प्रति वेदयामि शुद्धहस्तो ब्राह्मणस्यालेहत्य इदम् स्वर्गम् सुहृदा पीडितम् इदमम् रावणोत्तरमङ्गानु स्माल् लोका परमे समापा आश्लिञ्च सत्यर्घृणवत्सलेषा अङ्गीतसो नो वच्च सत्याय जयते देवताभ्यो निधिम् जयेवम् वरीदुपजेतम् द्योतेव गान्मा समिथा स्मन्यस्मा उत्सृजता पुरावदे अहम्बरजा धर्म करुणेधि कौमारो लोकपात्रो ेषास्ति वयम् मित्रे सममले अरोत्तम् निहितम् नेतद्वक्तारम् भक्तः पुनरादेशाहम् कृमस्तेन द्विषन्ति धेनुरमान्मरो वय आयदेव पौरुभेदपरवृत्त्यम् नोदन्तु स्वमज्ञयोः विदुरन्यो अन्यो जयश्च सिन्धोः ज्ञानम् त्वेवा देव्यातनम् ज्योतिर्पदो भूम् त्वजाम् रोषयम्बूवानल् सर्वे पजवो यन्ये कर्त्रेण आत्मानम् परिधावयातो भवतम् वा मुखोदस्य समानन्तः तस्मिन् समाजंसा दयातः वर्षम् वर्णष्वापे गच्छदेवान् तथा भूमम् दयाते विश्वव्यजतपृष्ट भविष्यन् स नेतरम् कर्म्यन्ना अपामये कृष्णाम् अग्नौ जो प्राये त्वार्येधीपते नित्याम्बरे दस्तै गोपायतामस्माकमेतोः अत्र त्र जने वरेणत्तेन रहदम्भावेन दक्षिणादित्वातिशयम् राजाभित्रे नो वरे एतम् वरे तद्वर्तन्न स्वागमयितो दृष्टन्मात्र जनसेने सज्जनवृत्यरपवेडोद आत्मदा पक्मेण नारम्भरेव प्रतीक्षेतादिशेवरोणायाधीपदरे एतम्बरे महागोपा यथास्माकरमेदो दृष्टन्मात्र जनसेन स जनवृत्यमेणोगदात्मदेन नरम्भरेव उदी चेत्तादृशे लोमायाधीपदरे स्वजाय क्षेत्रे सन्न्यायोपत्यये एतम् वेद गोपायस्माकमेतो तिष्ठन्मात्र जलदरेण जनमचरेण स्वदाम्भवे दुराशे तिष्ठवे अधीपदरे कुवार ग्रीवार क्षत्रमोषाधिभ्यो परेभ्यः एतम् वरीदग्नष्टेण गो भारतास्माकमेत्र जनेन परेणोदरात्रम्भेण ऊर्ध्वादितादिशीपे क्षेत्रालय क्षित्रे वर्षाय शोभते एतम् वरीदग्नस्तैः गो भारतास्माकमृतो निष्पन्नात्र जलदे जनावृत्त्यले परिणोदधात्मसर्वत्वेन सह सम्भते